हरि ओम् श्री सीतारामचन्द्राभ्य नमः अत श्रीमद्वाल्मीकि रामायणे अयोध्याखण्डे पञ्चदश स्वर्गः राजाज्ञेया श्रीरामम् आनेतुं सुमन्त्रस्य तद्भवने गमनम् ते सोतां रज निमुष्य उपतस्तु उपस्थानम् सहराज पुरोहिताल मुख्या च मुख्याय निगम प्रियमाना राघव सेसंगता उदीते विमले सूर्य पुष्ये चाभ्यागते हनी लगने कर्कटके प्राप्ते जन्म राम से अभिषेकाये राम से विजेन्द्रे उपकल्पितम् काञ्चनाय जलकुम्भाय भद्रपीठं सलङ्कुतं रथश्च सम्यगा तीर्णो भास्वत व्याघ्रचरमणाय गङ्गायमनो योपुण्य सङ्गमादाहृतं जलम् याश्चान्या सरितपुण्य हृदय कूपाय सरन्ति क्षीरिणः ताभ्यश्चैवार्तं तोयम् समुद्रेभ्यश्च सर्वतः क्षद्रं दधि घृतं लाज दर्भासु मनस्सु मनसप्पय अष्टौचकन्या रुचिराय मत्तश्च वरवारणः स्वजला क्षीरविच्छिन्न घटाकाञ्चन राजतः पद्म पलयुता भान्ति पूर्णाय परमवारिण चन्द्रासु विकटप्रक्षम् पाण्डुरम् रत्नभूषितम् सज्जं तिष्ठति रामस्य बालव्यजनमुत्तमम् चन्द्रमण्डल सङ्काशम् अथपत्रं च पाण्डुरम् सज्जं च शीकरं श्रीमद् अभिषेक पाण्डुरश्च विजसज्ज पाण्डुराश्व संस्थितः पादित्राणि च सर्वाणि वन्दिनश्च तथा पुरे इक्ष्वाकूणां यथा राज्ये संब्रियेताभिषेचनम् तथा दाति यमादाय राजपुत्राभिषेचनम् ते राम राजवचना तत्र समवेता महीपतिम् पश्यन्तु ब्रुवङ्को नु राज्ञो नः प्रतिवेदयेत् न पश्यामश्च राजानम् उदितश्च दिवाकरः यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः इति तेषु ब्रवाणेषु सर्वास्तांश्च महीपतिम् अब्रवीतानिदम् वाक्यं सुमन्त्रो राजसत्कृतः रामं राज्ञो नियोजेन तरया प्रस्थितो ह्यम् पूजा राज्ञो भवन्तश्च रामस्य तु विशेषते अयम् पृच्छामि वचनात् सुखम् आयुष्मता महम् राज्ञा सम्प्रति बुद्धस्य चणम् इत्युक्तवान् ते प्रद्वारम् आजग मे सदासक्तं च सर्वे स्म सुमन्त्रे प्रविशहे तुष्टावास्य तदा वंशम् प्रविश्य स विशाम्पते चयनीयं धरेन्द्रस्य तदासाध्यतिष्ठते चोत्यासाध्य सर्वेष्महे तिरस्कारि मन्त आशीभि गुणयुक्ताभि अभितुष्टैव राघवम् स्वमसूर्यो च शिववै शिवै शरणावपि वरुणैश्चाग्नीन्द्रैश्च विजयम् विजयं ते गता भगेव रात्रिशिवमुपस्थितम् बुद्ध्यस्व राजशार्दूले गुरुकार्यमनन्तरम् ब्राह्मणा बलमुख्या च नैकमा च गतस्य दर्शनं ते विकाङ्क्षन्ते प्रतिबुद्ध्य स्वराघवे सुवन्तं तदासूतं सुमन्त्रं मन्त्रकोविधम् प्रतिबुद्ध्ये तदो राज इदं वचन बब्रवी रामं मानय सूते यतस्य भीतो मय किमिदं कारणं येन ममाज्ञा प्रतिवायते न चैव सम्प्रतप्तोऽहम् आलये हाशुरागमम् इति राजा दशरथ सूतम् तत्रान्वशात् पुनरे स राजा वचनम् श्रुत्वा शरत प्रतिपूज्यतम् निर्जगाम नृपावासाम् मन्यमानः प्रियम् वहेत् प्रपन्नो राजमार्गम् च पताकाय ध्वज वृक्षे प्रमदितः सुतो जगामाशु विलोकयन् स सुतः स्रावे रामाधिकरणाकतः अभिषेचन संयुक्तः सर्वलोकस्य रुजवे ततो ददर्श रुचिरम् कैलासदृशप्रभम् राम वैष्म सुमन्त्र तु शोभितम् काञ्चन प्रतिमयिकाग्रम् मणिविद्रमतोरणम् शारदाभृगणप्रक्षम् दीप्तं मेरुमम् मणिभीवरमल्यानां सुमह अभिलङ्कुतम् मुक्ता मणिभिराकिरणम् चन्नः गुरुभूषितम् कन्धान् मनोज्ञान् विसृजेत् दार्दुरं शिखरं यथा सारसै च मयूरै च चा। विनदद्धि विरहितम् सुकृतैः मृगाकीर्णम् उत्कीर्णम् भक्तिभिस्त मनश्चे मनश्चक्षुर्च भूतानाम् आददस चंद्र भास्कर संघाशम कुबेर भवनोपमें धाम प्रतिम्हक मेरू श्रृंग समझ्मे उपस्थित समन अंजलि उपादा सामक्रत सदा जान पद जन मुख उन्मुख सामल मेघ सम्यम उदग्रम सुविराज नारकीणकैपावृत सहारुक सारथी स राजकुलम विराजय वरुति न राजगृहा पाति पुरस्य सर्वस्य मनांसि हचयन् ततः समासाद्य महदनम् प्रवृष्टरो मा स सारथी मृगै मयूरै च समाय कुरोर्वणम् गृहं वरार्हस्य शची पतेरि वे स तत्र कैलासनिभासलङ्कृताय प्रविश्य कक्षा श्रीदशालयोपमाय प्रियन्वरान् रामते सितान्भुं त्यपोय शुद्धान्तमुपासितो रथी रसत्र शुश्राव च युक्ताय रामाभिषेकार्थ कृतां जनानां नरेन्द्र सोनोऽमङ्गलार्थ सर्वस्य लोकस्य गिरे प्रदुष्टय महेन्द्र जन्म च भैष्मय रामस्य रम्यम् मृगपक्षिजुतम् ददर्शिवशृङ्गमुच्चम् विभ्राजमानम् प्रभया सुमन्त्र उपस्थितै अञ्जलिकारिभिः च सोपायने जानपदे जनै च कोट्यापराधै च समाकुलं धारपदम् ददर्श चतुमहमेघमयी धराभम् प्रवीणमत्यङ्कुशमात्यसह्यं रामपवाह्यं रुचिरं ददर्श चतुञ्जयं नागमुदग्रकाय सरंकुताञ्चाश्वरथान् च कुञ्जरान् अमात्य मुख्यां च ददर् वल्लभन् यपोयसूत सहितान्तमन्त समुद्रमन्त्रे ै संयुतम् अवर्यमाणे प्रविवे च सारथी प्रभुतरत्नम् अकरो यथर्णभम् इत्याच्यै मद्रामायणे वाल्मीकि अधिकारे अयोद्याकाण्डे पञ्चदर्श सर्ग हे श्रीसीता प्रणमस्तु